सर्वेषाम् संस्कृतकक्षायाम् स्वागतम् प्रथमतया अहम् एकम् श्लोकम् श्रावयामि विद्याविवादाय धनं मदाय शक्तिः परेषां परिपीडनाय खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय एतम् श्लोकं वदति यदि सत्पुरुषाणां पार्श्वे विद्या अस्ति चेत् ते सत्पुरुषाः ज्ञानार्थं तस्य उपयोगं कुर्वन्ति तथा एव सत्पुरुषाणां पार्श्वे धनमस्ति चेत् दानार्थं ते तस्य उपयोगं कुर्वन्ति यदि तेषां पार्श्वे शक्तिः अस्ति चेत् अन्येषां रक्षणार्थं तस्य उपयोगः भवति यदि दुर्जनानां पार्श्वे विद्या अस्ति चेत् केवलं कलहार्थं ते तस्य उपयोगं कुर्वन्ति तथा एव दुर्जनानां पार्श्वे शक्तिः अस्ति चेत् परेषां पीडनार्थं परिपीडनार्थम् इत्युक्ते हिंसार्थं दुर्जनाः तस्य उपयोगं कुर्वन्ति अतः दुर्जनसज्जनयोः मध्ये यः भेदः अस्ति सः भेदः अवगन्तव्यः वि नीटु नो द डिफ़्रेन्स् बिट्वीन् द सज्जनास् एण्ड् दुर्जनास् तदेव एकं श्लोकं वदति अनन्तरं वयं किञ्चित् गते सप्ताहे कानिचन प्रसिद्धानि अव्ययानि वयं ज्ञातवन्तः अष्टमे पुटे तत्र अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र इति षट् अव्ययानि पदानि वयं जानीमः तेषाम् उपयोगं कथं कुर्मः तेषाम् उपयोगः कुत्र भवति इत्यस्मिन् विषये वयं किञ्चित् पठितवन्तः अत्र एकः मुख्यबिन्दुः अस्ति इत्युक्ते इम्पार्टेण्ट् पायिण्ट् मुख्यबिन्दुः इत्युक्ते एतानि अव्ययपदानि सर्वनामपदानाम् आधारेण निष्पन्नानि अनन्तरम् अत्र अव्ययम् इति पदम् अहम् उपयोगं कृतवती अव्ययम् इत्युक्ते किम् अव्ययम् इत्यस्मिन् विषये अहम् एकं श्लोकं वदामि सदृशं त्रिशुलिङ्गेषु सर्वासु च वचनेषु च सर्वेषु यन्नव्येति तदव्ययम् इति वदामः सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्नव्येति तदव्ययम् इत्युक्ते एतस्य श्लोकस्य कः इत्युक्ते त्रिषु लिङ्गेषु इत्युक्ते पुंलिङ्गे स्त्रीलिङ्गे अपि च सर्वासु विभक्तिषु इत्युक्ते सप्तसु विभक्तिषु प्रथमा विभक्ति आरभ्य सप्तमी विभक्तिपर्यन्तं सर्वासु विभक्तिषु अपि च त्रिषु वचनेषु एकवचने द्विवचने बहुवचने अपि यत् पदं विकारं न प्राप्नोति यस्य परिवर्तनं न भवति इत्युक्ते एव रूपं सर्वदा तथा एव तिष्ठति तत्पदम अव्ययम् इति वदामः इदानीं पर्यन्तं वयं कानिचन अवय अव्ययानि पठन्तः स्मः वयं जानीमः तत्र गते सप्ताहे वयं तत्र इति पदं वयं ज्ञातवन्तः अत्र अहम् एकं भगवद्गीतायाः एकः श्लोकः अस्ति भगवद्गीतायां एकः श्लोकः अस्ति यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयोर्भूतिः ध्रुवानीतिर्मतिर्ममा श्लोके यत्र तत्र इति पदद्वयं पदद्वयस्य उपयोगः भवति तथा एव वयं जानीमः यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः अन्य अन्यः श्लोकः अपि अस्ति यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः तथा तस्मिन् श्लोके अपि यत्र तत्र इति पदद्वयस्य उपयोगम् उपयोगः भवति अनन्तरम् हिदाने वयं किं कुर्मः इत्युक्ते अष्टमे पुटे केनापि विलम्बेन आ, आ आगतं वा स्वागतं भगिनि Uh, लक्ष्मी uh, महोदय स्वागतम् अन्ये के के सन्ति केनापि विलम्बेन आगतं वा नास्ति चेत् वयम् अग्रे गच्छामः अत्र अष्टमे पुटे गृहपाठरूपेण अहं किञ्चित् गृहपाठं प्रेषितवती गृहपाठः कः इत्यस्मिन् विषये किञ्चित् पश्येम अत्र श्रीरम्या भगिनी भवती अष्टम अष्टमे पुटे किमस्ति अष्टमं पुटम प्रति गच्छतु तत्र किमस्ति इति किञ्चित् वदतु गृहपाठ गृहपाठं कृतवती वा भवती आं भगिनि कृतवती कृतवती कृतवती गृहपाठ गृहपाठ कः कः गृहपाठः कोष्टक कोष्टकेन काञ्चनि पदानि सन्ति पदानि उपयुज्य किञ्चित् अभ्यासं गृहपाठरूपेण भवती प्रेषितवती इखो आगच्छति स्पीकर् फोन् मास्तु भगिनी इखो आगच्छति इत्युक्ते ध्वनिमुद्रणं अनन्तरं ध्वनिमुद्रणं सम्यक् न भवति अग्रे गच्छामः समीर् महोदय भवान् करोति वा अष्टमे पुटे तत्र गृहपाठकः भवान् करोति वा महोदय अहं कानिचन प्रश्नान् पृच्छामि अत्र सूचना अस्ति सूचनां पठत प्रथमतया एतस्य कोष्टकस्य आधारेण वाक्यानि लिखतु अवगच्छति वा सूचनाकार सूचना अत्र अहं कानिचन प्रश्नान् पृच्छामि कस्य आधारेण लिखतु अहम् अन्यत् प्रश्नं पृच्छामि बेस्ड् आन् वाट् यु शुड् रैट् कस्य आधारेण लिखतु उत्तरं किं भवति कस्य आधारेण आधारेन ये तदेव अहम् उक्तवती तदेव अहम् उक्तवती कस्य आधारेन लिखतु इति अहं पृच्छामि चेत् उत्तरं किं भवति कोष्टकस्य आधारेन लिखतु अनन्तरं कोष्टकस्य आधारेण किं करणीयं बेस्ड् आन् देबल् वाट् शुड् वि डु कोष्टकस्य आधारेण किं करणीयं किं करणीयं वाक्यानि लिखतु वाक्यानि रचनीयानि अथवा वाक्यानि रचयामः अनन्तरम् अत्र कस्य कोष्टकस्य आधारेण वाक्यानि लेखनीयानि कस्य कोष्टकस्य विच् टे विच् टेबल् इत्युक्ते एतस्य कोष्टकस्य आधारेण तथा एव वक्तव्यं अनन्तरं कति वाक्यानि रचनीयानि हौ मेनि हौ मेनि यु ट्रैड् कति वाक्यानि भवन् उत्तमम् उत्तमम् अत्र प्रश्नवाचकपदं किं पुस्तकं कुत्र अस्ति उत्तमं प्रश्नवाचकपदं पदं प्रश्नवाचकपदं प्रश्नवाचिकवाक्यं कुत्र अस्ति कुत्र अस्ति अधुना श्रावयतु महोदय एकादशवाक्यानि श्रावयतु पुस्तकं तत्र पुस्तकं कुत्र अस्ति पुस्तकं तत्र अस्ति पुस्तकम् अन्यत्र अस्ति एकत्र पुस्तक पुस्तकं एकत्र नास्ति पुस्तकम् एकत्र नास्ति तथापि पुस्तकं सर्वत्र नास्ति इत्यपि वक्तुं शक्नुमः अनन्तरं गृहम् इति पदमुपयुज्य कानिचन वाक्यानि रचयतु गृहं कुत्र अस्ति गृहम् अत्र अस्ति गृहं तत्र अस्ति गृहम् अन्यत्र अस्ति mm. गृहम् एकत्र अस्ति उत्तमं परन्तु uh, अत्र सर्वत्र इति न वदामः गृहं सर्वत्र इति yes. न वक्तुं शक्नुमः वि केन् से दट् गृहम् इस् एव्रिवेर् रैट् right? सेवा no, okay. mm. उत्तमम् उत्तमं अत्र उत्तमं महोदय अनन्तरम् अत्र इति पदम् उपयुज्य अन्यत् वाक्यं वक्तुं शक्नोति वा भा भवान् किमपि वाक्यम् अन्यत् वाक्यं अत्र कः वदति अन्यत् वाक्यं वदतु महोदय वदतु केवलम अभ्यासार्थमेव यदि जानाति चेत् वदतु नो चेत् अन्य के केपि कोऽपि अस्ति वा वक्तुं शक्नोति वा कः वदति अन्यद्वाक्यं नास्ति चेत् अहं कानिचन वाक्यानि श्रावयामि शृण्वन्तु जस्ट् लिसन् देर् आर् सम् इण्ट्रेस्टिङ्ग् सेण्टेन्सेस् ऐ वुड् लैक् टु रीड् Uh, यदि गृहे माता मात माता अस्ति पुत्री अपि माता पुत्रीन् प्रति वदति किं वदति अत्र आगच्छतु इति वदति माता अत्र आगच्छतु अनन्तरं यदि वयं कार्यालयं प्रभुत्वकार्यालयं गच्छामश्चेत् तत्र अधिकारी वदति किं वदति महोदय अत्र हस्ताक्षरं स्थापयतु अत्र स्थापयतु कुर्द्सिग्नेचर् हि अत्र हस्ताक्षरं स्थापयतु इति वदति तथा एव अनन्तरं पुत्री भोजनं कुर्वती अस्ति तथा पुत्री मातरं प्रति वदति द डाटर् इस् द हर् मदर् अम्ब अत्र किञ्चित् अन्नं परिवेशयतु तथा अनन्तरं तत्र तत्र इति पदम् उपयुज्य कानिचन नूतनानि वाक्यानि रचयामः कः वक्तुं प्रयत्नं करोति कोपि किञ्चित् प्रयत्नं कुर्वन्तु अत्र अत्र अभवत् तत्र तत्र इति पदम् उपयुज्य अहं कानिचन वाक्यानि श्रावयामि जस्ट् केवलं शृण्वन्तु अत्र माता पुत्रीं वदति किं वदति पुत्री आगच्छति अनन्तरं पुत्री मातरं पृच्छति द डाक्टर् विल्स्क् हर् क्वश्चन् हर् मदर् वाट् शीस् एस् अम्ब मम पुस्तकं कुत्र अस्ति इति मातरं पृच्छति तदा माता किं वदति भवत्याः पुस्तकं तत्र एव कुत्रचित् स्यात् किञ्चित् अन्वेषणं कुरु करोतु भवत्याः पुस्तकं तत्र एव कुत् कुत्रचित् स्यात्मस्ति संवर्ध किञ्चित् अन्वेषणं करोतु इति वदति अनन्तरं यदि वयं मार्गे गच्छ कार्याने गच्छामः तदा दुर्घटना भवति इत्युक्ते आक्सिडेण्ट् हेपेन्स् देन् तदा वयं किं कुर्मः नैन् वन् वन् काल् कुर्मः अमेरिकादेशे hmm? तदा तत्र नैन् वन् वन् सेवकः झटिति सः किं वदति तक्षणम् एव वयं तत्र आगमिष्यामः तत्र आगमिष्यामः सः नैन् सेवकः तथा वदति hmm? तथा अनन्तरं um, कुत्र वयम् इदानीं पर्यन्तं वयं कुत्र इति पदं जानीमः कुत्र इत्युक्ते कः वदति कुत्र इत्युक्ते समीर् महोदय वदति वा कुत्र इत्युक्ते किं देवालयः कुत्र अस्ति हा कुत्र कुत्र इत्युक्ते आङ्ग्लभाषायां वेर? वेर् उत्तमम् उत्तमं उत्तम। अधुना अहं किं करोमि चेत् पदद्वयं पदद्वयं ददामि भवन्तः वाक्यद्वयं रचयन्तु समीर् महोदय भवते किं ददामि जलं चषकः इति पदद्वयं ददामि ऐ एम् गिविङ्ग् यु टु वर्ड्स् यूसिङ्ग् दोस् टु वर्ड्स् यु आर् सपोस् टु क्रियेट् टु सेण्टेन्सेस् कथं जलं चषकः इत्युक्ते जलं कुत्र अस्ति जलं कुत्र अस्ति तत्र तत्र अस्ति परन्तु अहं द्वितीयं पदं दत्तवती चषकः चषकः चषकः जलं चषके अस्ति चषके उत्तमं तथा एव वक्तव्यं हा तथा एव वयं नूतनवाक्यानि रचयामः भवतः भवते किं ददामि चेत् पुस्तकं स्यूतः अनन्तरं भगिनी भवत्याः कृते पिता कार्यालयः अनन्तरं अनन्तरं भगिनी भवत्याः कृते सूर्यः आकाशः भगिनी अन्नं स्थालिका राजीव्शिङ्ग् महोदय भवते उपनेत्रं पेटिका सुबारु महोदय भवतः कृते लेखनी उत्पीठिका अनन्तरं रम, श्रीरम्या भगिनी मीनाः नदी अहं पदद्वयं दत्तवती भवन्तः सर्वे वाक्यद्वयं प्रथमं वाक्यं यथा अहम् उक्तवती जलं चषकः इति पदद्वयम् उपयुज्य वाक्यं रचयामश्चेत् जलं कुत्र अस्ति जलं चषके अस्ति प्रयत्नं कुर्वन्तु भगिनि कार्यालयं पिता कार्यालयं स्थालिका इत्युक्ते प्लेट् अन्नं कः कर्तुमिच्छति प्रथमतया अहम् अहं वदामि वदतु भगिनि Uh, सूर्यः कुत्र अस्ति सूर्यः आकाशे अस्ति उत्तमम् अहम् अन्यत् पदद्वयं ददामि दधिः दधि पात्रं वदतु uh, दधि कुत्र अस्ति mm. दधि पात्रे अस्ति उत्तमं वृक्षः वनम् वृक्षः कुत्र अस्ति वृक्षः वने अस्ति उत्तमम् अनन्तरं फलरसं कूपी फलरसं कुत्र अस्ति फलरसं कूपे अस्ति अत्र पश्यतु भगिनी कूपी इति पदम् ईकारान्तस्त्रीलिङ्गपदम् ओ तदर्थम् अत्र कूपी इति पदस्य स्त्रीलिङ्ग इत पदस्य सप्तमीरूपं वक्तव्यम् इत्युक्ते कूप्यां कूप्यां पुनः वदतु फलरसे कुत्र अस्ति पुनः पुनः पुनः फलरस् फलरसे फलरसं फलरसं कुत्र अस्ति फलरसं कूप्याम् अस्ति उत्तमं धन्यवादः अन्ये सिद्धाः वा आं सिरम्य भगिनी सिरं सिरम्य भगिनी भवती सिद्धा वा आं भगिनि वदतु मीनाः कुत्र अस्ति मीनाः नद् नद्यां नद्याम् अस्ति अत्र पश्यतु मीनः एकवचनं मीनाः बहुवचनं अत्र मीनाः कुत्र सन्ति मीनाः कुत्र सन्ति मीनाः नद्यासु सन्ति नद्यां वदतु समीकरोतु मीनाः कुत्र सन्ति मीनाः नद्यां सन्ति उत्तमम् ीनाः पुनः वदतु तदेव वाक्यं पुनः मीनाः नद्यां सन्ति मीनाः नद्यां सन्ति uh. अनन्तरं uh. uh. सूर्यः सूर्यः आकाशः वदतु पदद्वयम् उपयुज्य सूर्यः कुत्र अस्ति सूर्यः mm. आकाशे अस्ति अनन्तरं वृक्षाः वृक्षाः कुत्र सन्ति वृक्षाः वने सन्ति वने सन्ति उपनेत्राणि कुत्र सन्ति उपनेत्राणि पेटिके हा पश्यतु अत्र पेटिका आकारान्तस्त्रीलिङ्गपदम् अतः आकारान्तस्त्रीलिङ्गपदस्य सप्तमीरूपं पेटिकायाम् वदतु उपनेत्राणि उपने कुत्र सन्ति उपनेत्राणि पेटिकायां सन्ति उत्तमं धन्यवादः अन्ये सुबरुमहोदय भवान् सिद्धः वा वक्तुमिच्छति हा हा आं भगिनि वदतु पदद्वयं किं भवतः मम पदद्वयं लेखनी उत्पेटिका लेखनी कुत्र अस्ति वदतु मम लेखनी उत्पेटिका उपरि अस्ति आ, हमल, आ, हा अत्र पश्यतु मम केवलं सप्तमीविभक्तेः उपयोगं कुर्मः अतः उत्पीठिकायां उत्पीठिकायाः उपरि अस्ति तदपि समीचीनमेव उत्तमम् अनन्तरं दधि पात्रम् कुत्र अस्ति दधि कुत्र अस्ति दधि दधि पात्रायाम् अस्ति आम् अत्र पश्यतु पात्रं पात्रम् इति नपुंसकलिङ्गपदं नपुंसकलिङ्गपदस्य सप्तमीविभक्तिरूपं पात्रे पात्रे दधि दधि दधि कुत्र अस्ति दधि पात्रे अस्ति उत्तमम् अत्र पश्यन्तु दधि केवलं अत्र तत्र विसर्गः नास्ति दधि इकारान्त ह्रस्व इकारान्तपदं नपुंसकलिङ्गपदं रूपाणि कथं भवन्ति चेत् दधि दधिनी दधीनि तथा भवन्ति एकवचने दधि द्विवचने दधिनी बहुवचने दधीनि ह्रस्व इकारान्तनपुंसकलिङ्गपदं अनन्तरं भवान् एव करोतु महोदय पुस्तकं स्यूतः मम पुस्तकं कुत्र अस्ति mm. मम पुम स्यूतः मम पुस्तकं स्यूते mm. मम मा, पुस्तकं स्यूते अस्ति उत्तमं जलं चषकः पदद्वयम् उपयुज्य वाक्यद्वयम् एकं प्रश्नवाचकवाक्यम् अन्यत् उत्तरं जलं कुत्र अस्ति जलं चषके अस्ति उत्तमं धन्यवादः महोदय अन्ये के के वक्तुमिच्छन्ति राजीव्सिङ्ग् महोदय भवान् कर्तुमिच्छति वा वदतु uh, <laughs> उपनेत्रं कुत्र अस्ति उपनेत्रं पेटिकायां सन्ति किमर्थं सन्ति अत्र आ, अत्र पश्यतु उपनेत्रम् एकवचनम् उपनेत्रम् उपनेत्रं पेदिकायाम् पुनः पुनः वाक्यं रचयतु उपनेत्रं कुत्र अस्ति इत्युक्ते तत्र एकमेव उपनेत्रम उपनेत्रमस्ति एकमेव देर् इस् ओन्लि वन् पेराग्लासेस् उपनेत्रम कुत्र अस्ति उत्तरं किं भवति उपनेत्रं पेटिकायां अस्ति उत्तमम् अस्ति अनन्तरं पिता कार्यालयः वदतु पिता कार्यालयः पिता कुत्र अस्ति पिता कार्यालयः कार्यालयः अस्ति हलो हलो कार्यालयः इति पदं पुंलिङ्गपदं कार्यालयः सन्ति कार्यालयः पुंलिङ्गपदं प्रथमाविभक्तौ अस्ति अतः पिता कार्यालये अस्ति इति वदामः अस्ति उत्तमं सूर्यः आकाशः वदतु सूर्यः कुत्र अस्ति सूर्यः hmm. आकाशः अस्ति उत्तमम् अन्नं स्थालिका uh, अन्नं कुत्र अस्ति hmm. अन्नं स्थालिकाय सन्ति अत्र स्थालि अत्र पश्यतु स्थालिका इति पदम् आकारान्तपदम् अतः स्थालिकायाम् अस्ति स्थालिका इत्युक्ते प्लेट् हा स्थालिका इत्युक्ते प्लेट् वदतु अन्नं कुत्र अस्ति अन्नं स्थालिकाय सो अस् इ It's Bahawachan or it's Bahawachan, right? Annam eka vachanam. Annam. Mm. Annam. Annam. Uh, atra. Annam it padam. Napomsika lingam padam. Eka vachanam. Kimartham eka vachanam. Uh, Kimartham eka vachanam chet. Why it is in um, uh, Napomsika lingam, uh, I explained it previous, in, in the previous uh, lessons. अन्नम् इति पदस्य अन्ते मकारः अस्ति यदि पदस्य अन्ते मकारः वा अनुस्वारः वा इत्युक्ते इति अस्ति चेत् साधारणतया वै साधारणतया वयं वक्तुं शक्नुमः यत् एतत् पदं नपुंसकलिङ्गपदं परन्तु सर्वदा तथा न भवति तत् केवलम् एकः नियमः परन्तु एक्सेप्शन्स् सन्ति तस्य कृते जस्ट् फर् टैम् बीङ्ग् यू रिमेम्बर् दट् if there is makaram at the end of the word then you can Any consider question. it as it is in apumsikalinga padam okay anantram phala rasam a chashakah uh, vadatu phala rasam chashakah a what is phala rasam vakyedvayam two sentences okay phala uh, rasam लक्ष्मी फलरसं फलरसं फ्रूट् ज्यूस् ओके चषिकाषकः परन्तु अत्र फलरसं चषके अस्ति yes. इति वदामः चषकः इति पदस्य सप्तमी विभक्तिरूपं चषके अवगच्छति yes. वा महोदय अनन्तरं yes. yes. वसुप्रदा भगिनी भवती कर्तुम् इच्छति वा अस्तु भगिनि मम फलद्वयं कार्यालयं पिता Hmm. पिता पृच्छतवान् कार्यालयं कुत्र अस्ति hmm. मम कार्यालयम् अत्र अस्ति ओ oh, तथा कृतवती वा सम्यक् एव पिता कुत्र अस्ति मम आशयः यत् पिता कुत्र अस्ति पिता कार्यालये अस्ति तदेव oh, okay. श्रोतुमिच्छामि परन्तु सम्यक् एव अनन्तरं जलं चषकः करोतु जलं कुत्र अस्ति जलं पात्रे पदद्वयं किं चषकः प्रथमं प्रथमं पदं प्रथमं पदं जलं द्वितीयं पदं चषकः करोतु जलं कुत्र अस्ति जलं चषके अस्ति कस्यके अस्ति पुस्तकं क्यूटः पुस्तकं कुत्र अस्ति पुस्तकं क्यूटे अस्ति उत्तम सूर्यः आकाशः सूर्यः कुत्र अस्ति सूर्यः आकाशे अस्ति उत्तम उत्तम अनन्तरम् अहत्र एकां कथां अहम् प्रेषितवती सर्वे कथां पश्यन्तु किञ्चित् कथां पठेम सर्वेषां पार्श्वे कथा अस्ति वा आं भगिनि कः पठितुमिच्छति लक्ष्मीभगिनी भवती पठतिवा वा आम् आम् एकं तत्र एकः गुरुः गुरुः महापण्डितः एकः बालकः आगच्छति वद अहं भवतः शिष्यः भवितुम् इच्छामि गुरुः वदति तदर्थम् एकपरीक्षा अस्ति वदत... तदर्थम् एका परीक्षा अस्ति शिष्यः वदति भवतु गुरुः पृच्छति देवः कुत्र अस्ति शिष्यः वदति अस्ति शिष्यः वदति भवतु भवतु गुरुः पृच्छति देवः कुत्र अस्ति शिष्यः वदति देवः सर्वत्र अस्ति सः कुत्र नास्ति इति भवान् एव वदति भगिनि oh no what's happening mm. guru uvadati uh, ah Sampark, uh, atra uh, samparkah samyakna asti bhati apun uh, hai ek var magat hoti do you want to come join the class once again uh, finish it and uh, uh, just uh, oh, okay i'll delete i'm going to come once again mm? okay, okay. samparkah uh, samparkah samyakna asti hum mm. patak pa, guru guru pruchyati devakutra asti शिष्यः वदति देवः सर्वत्र अस्ति सः कुत्र नास्ति इति भवान् एव वदतु इति गुरुः सन्तुष्टः भवति बालकः तस्य शिष्यः भवति अवगच्छति वा अत्र किमस्ति अवगच्छति वा कदा एकम एकमेकं वाक्यं स्वीकृत्य वयं अधुना पठामः पुनः अत्र एकं गुरुकुलं गुरुकुलम् इत्युक्ते स्कूल्कू उत्तमं गुरोः गृहं स्कूल तत्र एकः गुरुः गुरुः किं करोति गुरुः छात्रान् पाठयति सः गुरुः महापण्डितः महापण्डितः इत्युक्ते स्कालर् And... उत्तमं <laughs> विद्वान् hmm? तस्य पाण्डित्यमस्ति hmm? अनन्तरं uh, तदा किं भवति एकः बालकः आगच्छति तस्य पार्श्वे हा आगत्य किं वदति अहं भवतः शिष्यः भवितुम् इच्छामि इत्युक्ते कः वदति अर्थः कः अहं भवतः शिष्यः भवितुम् इच्छामि you. उत्तमं तदा गुरुः किम् उत्तरं ददाति तदर्थम् एका परीक्षा अस्ति तदा शिष्यः वदति भवतु भवतु इत्युक्ते अस्तु अस्तु अथवा ओके गुरुः पृच्छति किं पृच्छति देवः कुत्र अस्ति तदा शिष्यः उत्तरं किं देवः सर्वत्र अस्ति सः कुत्र नास्ति इति भवान् एव वदतु इत्युक्ते उत्तमं गुरुः सन्तुष्टः भवति अनन्तरं बालकः दस्य शिष्यः भवति इत्युक्ते गुरुः बालकं शिष्यरूपेण स्वीकृतवान् तथा सः तस्य शिष्यः अभवत् अत्र कथायाः नीतिः नीतिः का कः वदति पद्मीभगिनी भवती वदति वा कथायाः नीतिः का नीति इत्युक्ते देवः सर्वत्र अस्ति अण्ड् नोयिङ्ग् द मीनिङ्ग् आफ् कुत्र एण्ड् सर्वत्र उत्तमं तदेव तावदेव इत्युक्ते अत्र बालकः बुद्धिमान् बालकः अपि च सः विवेकी अपि अस्ति अतः सः वदति देवः सर्वत्र अस्ति सः कुत्र देवः कुत्र नास्ति इति भवान् एव वदतु इति पृष्टवान् इत्युक्ते भगवान् सर्वत्र अस्ति तावदेव सम्यक् भगिनी उत्तमं अनन्तरम् अग्रे गच्छेम अनन्तरम् अत्र अन्यः मम नाम लक्ष्मीः भवन्तः जानन्ति एव यदि अहं मम नाम लक्ष्मीः इत्यपि वक्तुं शक्नोमि अथवा अहं लक्ष्मीः इत्यपि समीचीनं इफ् ऐ से मै नेम् इस् लक्ष्मी दट् इस् फैन् अदर्वैस् ऐ केन् से ऐ एम् लक्ष्मी दट्स् आल्सो फैन् रैट् मम नाम लक्ष्मीः इत्यपि समीचीनम् अहं लक्ष्मीः इत्यपि समीचीनम् एव अहं शिक्षिका अहं शिक्षिका अनन्तरं श्रीरम्या भगिनी भवती वदतु भवत्याः नाम मम नाम श्रीरम्या केवलम् अभ्यासार्थं पृच्छामि अहं जानामि एव भवत्याः मम नाम श्रीरम्या अथवा आर् एल् अहं अहं श्रीरम्या अहं श्रीरम्या अनन्तरम् अहं मम नाम लक्ष्मीः अहं लक्ष्मीः अहं शिक्षिका भवती का अहं गृहिणी उत्तमम् अहं गृहिणी Full name. Mm. हा भवत्याः पूर्णं नाम किं पूर्णं नाम इत्युक्ते किमर्थं पूर्णम् इति उक्तवती नाम इति पदं नपुंसकलिङ्गपदम् अतः पूर्णं नाम इति वदामः वाट्स् युवर् फ़ुल् नेम् अनन्तरं सुब्बारु महोदय अहं अहं जानामि परन्तु केवलं पृच्छामि भवतः भवतः मम नाम सुब्बारावः भवान् कः अहं विद्यार्थी उत्तमम् म्यूट् करोतु महोदय कृपया राजीव्सिङ्ग् महोदय अहम् अध्यापिका भवान् कः अहं विद्यार्थी उत्तमं वदतु भवानपि परिचयं ददातु अहं मम नाम अहं वदतु अहं भवान् कः हू आर् यूव अत्र पश्यतु महोदय किमर्थं तथा विसर्गस्य उच्चारणं सम्यक् भवतु यु आर् सपोस् टु प्रनौन्स् द विसर्ग पर्फेक्ट् अहं मम नाम राजीवः भवान् कः अहं विद्यार्थी अहं विद्यार्थी उत्तमं लक्ष्मीभगिनी लक्ष्मीभगिनीं बुद्धिश्च वदामि भगिनी अहम् उद्योगिनी भवती का अहं विद्यार्थिनी उत्तमं भवती अपि वाक्यद्वयम् अथवा वाक्यत्रयं रचयतु मम नाम लक्ष्मीः तथा करोति वा <laughs> मम नाम लक्ष्मी अहं लक्ष्मी अत्र पश्यतु भगिनि लक्ष्मीः इति एव समीचीनं रूपं यु आर् नाट् सपोस् टु से लक्ष्मी mm. Mm. Mm -hmm. okay. one, आ, लक्ष्मी इस् वन् अत्र पश्यतु लक्ष्मी इस् वन् युनीक् नेम् इन् संस्कृत् you are supposed to say all the time lakshmi mm -hmm. only that bhajani name eka bahini eka sandesh sandeha hm mm. lakshmi lakshmi visarga astiva nama ah ah tadeva aham tadeva uktavati ah, ah kevalam okay. lakshmi ah lakshmi iti padasya ante sarvada visarga se uchcharanam करणीयम् इत्युक्ते लक्ष्मीः इति एव समीचीनं रूपं mm -hmm. लक्ष्मीभगिनी भवती अपि पुनः करोतु पुनः वदतु मम नाम मम नाम लक्ष्मीः अहं लक्ष्मीः अहं विद्यार्थिनी उत्तमम् उत्तमं पद्मिनी भगिनी भवती अपि करोतु अहं नाम मम <coughs> नाम पद्मिनी अहं गृहिणी गायिका च उत्तमम् उत्तमं केवलम् पश्यन्तु अभ्यासार्थमेव वयम् अत्र वदामः सत्यं वा न वा इति अनन्तरं चिन्तयामः केवलमहं वदामि अहं लक्ष्मीः अहं नर्तकी इति केवलं वदामि केवलं तत् परन्तु केवलम् अभ्यासार्थं वयम् अत्र किञ्चित् वदामः तथा एव अत्र अत्र भवान् कः अथवा भवती का इति वाक्यद्वयमस्ति अत्र भवान् इति इत्युक्ते किम् भवान् कः इत्युक्ते भवान् किं कार्यं करोति इति अर्थः भवती का इत्युक्ते भवती किं करोति इति अर्थः अत्र अहम् एकं एका लघुकथां वक्तुमिच्छामि अत्र भवान् कः भवती का इत्यस्मिन् विषये भवान् कः इत्यस्मिन् विषये एकां कथां वक्तुमिच्छामि भवन्तः सर्वे रामकृष्णपरमहंसः अपि च विवेकानन्दः भवन्तः जानन्ति एव एकदा रामकृष्णपरमहंसः विवेकानन्दम् उद्दिश्य सः पृष्टवान् किं पृष्टवान् भवान् कः रामकृष्णपरहंस आस्क विवेकानन्दः हू आर् यू भवान् कः अथवा कस्त्वं कस्त्वम् इत्युक्ते कः त्वं त्वं कः तदा विवेकानन्दः वदति सोऽहम् सोऽहमित्युक्ते सः अहम् अत्र सहमित्युक् सः इत्युक्ते सः इत्युक्ते परमात्मा विवेकानन्दः वदति सः अहम् सः परमात्मा एव अहम् अहम् अवगतवान् एतत् सत्यम् अहम् अवगतवान् अहं सः परमात्मा एव इति विवेकानन्दः वदति अनन्तरं रामकृष्णपरमहंसः अन्यः अन्यं शिष्यं पृच्छति भवान् कः तदा सः वदति दासोऽहम् इत्युक्ते अहम् दा तदा रामकृष्णपरमहंसः पृच्छति कस्य दासः भवान् तदा सः वदति अहम् ईश्वरस्य दासः तथा वदति तदा, तदा अत्र तयोर्मध्ये चर्चा जाता अनन्तरं सः अपि रामकृष्णपरमहंसस्य शिष्यः अभवत् अत्र अहं किं वक्तुमिच्छामि चेत् कोऽहम् अथवा भवान् कः इति प्रश्नः सर्वेषां मनसि agantavyah we need to know at one point of time in our life that who am i tasya uttram datavyam eva tasya uttram datavyam asmaabhihi uttaradayitvam asmakam uttaradayitva it chukte it is our responsibility to give the answer for that question bhavan kaha atra kevalam vayam अभ्यासार्थं भवान् कः इति केवलं भाषा भाषाध्ययनविषये वयं वदामः परन्तु कोऽहम् इति प्रश्नस्य उत्तरं दातव्यम् एव तदेव अहं वक्तुमिच्छामि अनन्तरं वयम् अधुना नवमे पुटे किम् अस्ति इति किञ्चित् पश्यामः कः लक्ष्मीभगिनी भवती भगिनि अत्र नवमे पुटे किमस्ति अहं लता भवान् कः जनार्दनः अहं लता भवती का अहं निर्मला भवान् कः अहं वैद्यः अहं विद्यार्थी भवती का अहं गृहिणी अहं विद्यार्थिनी mm. एकस्य एक उत्तरं लिखतु भवान् कः अहं विद्यार्थी भवती करोति चेत् अहं भवान् कः यदि पुरुषम् उद्दिश्य भवान वदामश्चेत् भवान् कः mm इति -hmm. वदामः तदा उत्तरं किं भवति अहं विद्यार्थी इति भवति यदि महिलाम् उद्दिश्य वदामश्चेत् अहं विद्यार्थिनी भवती अवगच्छति वा अस्मिन् पुटे किम् अस्ति इति यस्य कस्यापि प्रश्नः अस्ति वा अस्मिन् पुटे किमस्ति इति विषये डु हेव् एनी क्वश्चन्स् रिगार्डिङ्ग् दिस् पेज् न सर्वे अवगतवन्तः वा अवगच्छति वा उत्तमम् उत्तमम् अनन्तरम् अत्र अहं किं करोमि लक्ष्मी लक्ष्मी भगिनी स्माल् डौट् so in the what? shloka you recited yatra yogeshwara krishna hmm we don't have the yatra word right in what no. we learned hmm hmm yatra, yatra is not there hmm okay it's not there yatra ah uh, yatra mm -hmm. wherever okay uh, wherever okay. actually you will be learning that uh, in the next le uh, lesson mm. uh, but okay. so far you did not learn yatra okay तत्र oh, thank you. केवलं वयं भवन्तः केवलं तत्र इति पदमेव भवन्तः जानन्ति अनन्तरम् अनन्तरम् अहं किं करोमि इत्युक्ते किञ्चित् अत्र अभ्यासं कुर्मः अहं पुंलिङ्गे वृत्तेः नाम वदामि भवन्तः स्त्रीलिङ्गे वदन्तु mm -hmm. अहं पुंलिङ्गरूपं वदामि भवन्तः स्त्रीलिङ्गरूपं वदन्तु कथम् अत्र शिक्षकः इति पदस्य अहं शिक्ष यदि समीर् महोदयः वदति चेत् अहं शिक्षकः यदि वसुप्रदाभगिनी वदति चेत् अहं शिक्षिका इति वक्तव्यं तथा यदि पुंलिङ्गे पुंलिङ्गे अहं वदामि भवन्तः स्त्रीलिङ्गे वदन्तु छात्रः स्त्रीलिङ्गे किम् छात्रः वैद्यः उत्तमं गायकः गायिका नेता, नेता पश्यन्तु नेता इत्युक्ते कः पोलिटिशियन् लीडर् उत्तमं नेता इत्युक्ते लीडर् लीडर् स्त्रीलिङ्गे किं वदामः नेता सेम् वर्ड् नेता सेम् वर्ड् सेम् सेम् वर्ड् इन् स्त्रीलिङ्गे किं वदामः नेत्री यत् यथा नदी अनन्तरम् स्त्रीलिङ्गे किं वदामः उत्तमं स्त्रीलिङ्गे अधिवक्त्री अधिवक्ता इत्युक्ते कः अहम् अधिवक्ता इति वदामि ऐ एम् गोयिङ्ग् टु अनौन्स् दट् ऐ एम् अधिवक्ता अहम् अधिवक्ता इत्युक्ते लायर् स्त्रीलिङ्गे अधिवक्त्रीयन्ता अभियंत्री उत्तमम् अभियन्ता इत्युक्ते कः वदति अभियन्ता इत्युक्ते इञ्जिनियर् स्त्रीलिङ्गे उत्तमम् उत्तमम् उद्योगी पुंलिङ्गे उद्योगी स्त्रीलिङ्गे किं भवति उद्योगिनी उत्तमं गृहस्थः पुम्लिङ्गे युवकः अहं युवकः किं वक्तव्यं युवतिः विसर्गः अस्ति अन्ते विसर्गः अस्ति पदस्य अन्ते वृद्धः स्त्रीलिङ्गे वृद्धि वृद्धा वृद्धि वृद्धा एव समीचीनं तथा वयं कथं परिचयः करणीयः इत्युक्ते हौ शुड् बि इन्ट्रोड्यूस् अवर् सेल्स् this uh, this page will help us understand how to introduce ourselves to others right mm. anandram atra ah uh. kimasti atra hmm दशमे पुटे आं oh. <coughs> दशमे पुटे किमस्ति इति दशमं पुटं प्रति गच्छेम अधुना hmm? अत्र अहं ah. केवलं किञ्चित् uh, वदामि यदि uh, श्रीरम्या भगिनी मम पार्श्वे अस्ति hmm? श्रीरम्या भगिनी इस् सिटिङ्ग् uh, क्लोस् टु मि देन् तदा अहं वदामि एषा श्रीरम्या इति वदामि अनन्तरम् एतस्याः नाम श्रीरम्या इति वदामि तथा एव यदि समीर् महोदयः मम समीपे अस्ति समीर महोदय इस् वेरि क्लोस् टु मी देन् ऐ विल् से एषः समीरः एतस्य नाम समीरः तदपि समीचीनम् अत्र एषः एतस्य एषा एतस्याः यदि अधुना रम्या भगिनी दूरे अस्ति यदि रम्या भगिनी दूरे अस्ति चेत् सा रम्या इति वदामि अथवा तस्याः नाम श्रीरम्या इति वदामि हर् नेम् इस् श्रीरम्या तथा एव समीरमहोदय हा दूरे अस्ति चेत् सः समीरः इति वदामि अथवा तस्य नाम समीरः इत्यपि वक्तुं शक्नुमः अधुना अत्र आभागे किमस्ति इति किञ्चित् पश्यामः राजीव्सिङ्ग् महोदय भवान करोति वा पठति वा उदाहरणं दृष्ट्वा क्यानि सूचना द इन्स्ट्रक्षन् इस् रैट् सेण्टेन्सस् लैक् दीस् बट् ऐ एम् आस्किङ्ग् यु वाट् कैण्ड् आफ् सेण्टेन्सस् For that, no, the question will be, क्वशन् विल् बि कीदृशवाक्यानि लिखतु इत्युक्ते तादृशवाक्यानि लिखतु लैक् इन् द to यु the sentences exactly like in the example. लैक् इन् देवम् करोतु तत्र पुटस्य मध्यभागे एका महिला अस्ति सा किं करोति सा अङ्गुलीं प्रसारे वदति करोतु भवान् अवगच्छति एवं तथा किमर्थं कि सः उक्तवती एतस्य नाम रामः तस्य नाम कृष्णः तथा किमर्थम् उक्तवती सा वैडिचि से दट् एतस्य नाम रामः तस्य नाम कृष्णः किमर्थं रामः रामः समीपः अस्ति कृष्ण दूरे दूरे अस्ति कृष्णः दूरे अस्ति दुतिय, उत्तमं द्वितीयं द्वितीयं करोतु एतस्य नाम गणेशः तस्य नामः आज्नेयः अत्र पश्यतु महोदय नामः इति न वदा इट् इस् नाट् रैट् नामः इस् नाट् रैट् इट् इस् नाम किमर्थं नाम नाम इति पदं नकारान्तनपुंसिकलिङ्गपदं हलन्तपदं तदर्थं नाम इति पदस्य एकवचनरूपं नाम द्विवचनं नामनी बहुवचनं नामानि अत्र विसर्गः नास्ति तस्य नाम कृष्णः एतस्य नाम रामः तत् अत्र विसर्गः नास्ति विसर्गः न वक्तव्यः यु आर् नाट् सपोस् टु प्रोनौन्स् विसर्गदे नाम ओन्लि पुनः वदतु एतस्य तस्य नाम पश्यतु आञ्जनेयः आञ्जनेयः आञ्जनेयः तस्य नाम आञ्जनेयः उत्तमम् अत्र आञ्जनेयः अत्र पश्यतु लेखनशैल्या लेखनशैल्यां वैशिष्ट्यम् अत्र आं तत्र मकारः श्रूयते परन्तु मकारः न लिखितः केवलं चवर्गी अन्तिमव्यञ्जनम् अपि च जकारः चाच्छ अन्तिम अनुनाकार अनन्तरं जकारः तथा एव लेखनीयम् you are supposed to write it like that anjaneyah anjaneya. anjaneya. anjaneya. uh, anjaneyah uh, anjaneyah uttamam uttamam karatu anjaneyah right. uh, anjaneyasana anjaneya. anjaneya. uttamam uh, trutiam karatu uh, etasya nama shivaha hmm. tasya nama buddhaha hmm. चतुर्थम् अत्र अत्र पश्यतु अत्र एकः मुख्यबिन्दुः अस्ति इत्युक्ते द्वयोः इत्युक्ते पुंलिङ्गपद पदस्य अपि च नपुंसकलिङ्गपदस्य षष्ठिविभक्तेः रूपं समानम् इत्युक्ते द्वयोः पदयोः षष्टिविभक्तेः रूपं समानम् इति अवगन्तव्यम् इत्युक्ते तेट् मीन्स् फर् पुंलिङ्गपदात् अण्ड् नपुंसकलिङ्गपदा द षष्टिविभक्तिरूपम् इस् सिमिलर् ओके एतस्य नाम रामायणं तस्य नाम उत्तमं भवान् जानाति वा एतस्य किं तस्य पदयोः मध्ये भेदः कः कुत्र तस्य उपयोगः भवति वेर् शुड् बि यूस् एतस्य अनन्तरम् अत्र वसुप्रदा भगिनी अस्ति भवती करोति वा भगिनी इदानीं पर्यन्तं भवती न कृतवती अस्तु भगिनि भगिनि सेकेण्ड् टेबल्के उमा अत्र गीता अत्र दूरे अस्ति तस्य नाम उमा तस्याः नाम गीता एता उमा तस्य नाम गीता पुनः वदतु भगिनी सम्पर्कः सम्यक् नास्ति अतः सम्यक्तया न श्रूयते अतः पुनः पृच्छामि एतस्याः नाम उमा तस्याः नाम गीता okay. द्वितीय एतस्याः दि, नाम लीला तस्याः नाम रमा एतस्याः नाम लक्ष्मीः तस्याः नाम सरस्वती उत्तमम् अत्र इति दत्तं लक्ष्मीभगिनी भवती पश्यति वा तथा एव वक्तव्यं तथा एव लेखनीयं लक्ष्मीः इति वदामः अत्र अत्र एतस्याः तस्याः तयोर्मध्यभेदः अस्ति वा समीप समीपुल् स्त्रीलिङ्ग् तस्याः दूर दूर स्त्रीलिङ्ग सा गीता दूरे अस्ति अतः तस्याः नाम गीता इति वदामः तथा एव अत्र रमा अपि दूरे अस्ति अतः तस्याः नाम रमा अपि च सरस्वती सा अपि अस्ति अतः तस्याः नाम सरस्वती अथवा सा सरस्वती इत्यपि वदामः परन्तु अत्र सा सरस्वती अपि समीचीनं तस्याः नाम सरस्वती अपि समीचीनम् अत्र आकारान्तस्त्रीलिङ्गपदानि कानि वदतु hmm. उमा लीला गीता रमा उत्तमम् ईकारान्तस्त्रीलिङ्गपदानि लक्ष्मीः सरस्वती उत्तमम् उत्तमम् अत्र उपरि आभागे तत्र रामः इति तस्य चित्रमस्ति उपरि mm -hmm. उपरि पश्यन्तु अत्र रामः mm -hmm. तत्र mm -hmm. चित्रे किमस्ति रामः तस्य हस्ते चापः अस्ति अस्ति वा शापः चापः इत्युक्ते अस्ति एषः रामः एतस्य नाम रामः एतस्य चापः रामस्य एतस्य नाम रामः अनन्तरम् एतस्य चापः एषः चापः एतस्य चापः कस्य चापः रामस्य चापः हुस् हुस्ति रामस्य रामस्य चापः तथा एव कृष्णः एषः सः तस्य नाम कृष्णः तस्य हस्ते वेणुः अस्ति कस्य वेणुः कृष्णस्य उत्तमं कृष्णस्य वेणुः यदि भवत्याः पार्श्वे पुस्तकमस्ति अथवा भवत्याः पार्श्वे दूरवाणी अस्ति तदा अहं वदामि एषा लक्ष्मीभगिनी लक्ष्मीभगिनी वा एषा लक्ष्मीभगिनी एतस्याः नाम लक्ष्मीः एतस्य एतस्याः पुस्तकम् अथवा लक्ष्मीभगिन्याः पुस्तकम् इति वदामि तथा एव अनन्तरं तथा एतस्य एतस्य इति पदम् एतस्य इति पदम् एतस्य चापः एतस्य mm -hmm. वेणुः तथापि वदामः यदि mm -hmm. भव यदि भवती उपनेत्रं धरति चेत् भवत्याः उपनेत्रम् इति वदामि अथवा भवत्याः सङ्गणकं mm -hmm. तथा वदामः अत्र अहं किं mm, करोमि चेत् किञ्चित् अभ्यासं कुर्मः अत्र नाम उमा करोतु महोदय अत्र भवानेव करोतु अत्र पुस्तकस्य मध्यभागे महिला अस्ति सा वदति एतस्य नाम रामः किमर्थं वदति सा तथा भवानेव वदतु एतस्य एतस्य किमर्थं वदति वै सेइंग एतस्य उपरि किमर्थम् एतस्य वैश्य सेङ्ग् एतस्य कारणं किं भवान् जानाति रूल् नियमः सः एव अत्र स्त्रीलिङ्गे वदामश्चेत् एतस्याः तत्र उमा उमा समीपे अस्ति अतः सा महिला वदति एतस्याः नाम उमा इति वदति तथा एव अत्र गीता दूरे अस्ति अतः तस्याः नाम गीता इति वदति अत्र पश्यतु महोदय एषा इति पदं भवान् जानाति एषा सा डु रिमेम्बर् द वर्ड्स् एषा अण्ड् सा एषा उमा सा गीता एषा सा इति पदं पदद्वयं जानाति वा भवान् ऐ थिङ्क् यु नो सा. एषा एषा पदस्य षष्टिविभक्तेः रूपम् एतस्याः तथा एव तथा एव सा इति पदस्य षष्टिविभक्तेः रूपं तस्याः तस्याः विसर्गः अस्ति अन्ते एतस्याः तस्याः यदि पुंलिङ्गे वदामश्चेत् एषः सः पदद्वयं भवान् जानाति एव एषः इति पदस्य षष्टिविभक्तेः रूपम् एतस्य okay. तथा एव सः इति पदस्य षष्टिविभक्तेः रूपं तस्य अधुना okay. वयं किञ्चित् अभ्यासं कुर्मः रामः दशरथः इति नामद्वयमस्ति i have two names for me aham vadami ramah kaha ramah kaha who is rama i am asking the question taha uttram kim bhavati ramah dasharathasya ah dasharathasya putraha satyam kila anantaram dasharatha kaha iti vadami दशरथः कः दशरथः रामस्य पिता तथा किञ्चित् अभ्यासं कुर्मः रामस्य हा आ, आ, न, हा अत्र श्रीरम्य भगिनी भवत्याः कृते गणेशः शिवः अनन्तरं सुब्बरौ महोदय कर्णः सूर्यः अनन्तरं राजीव्सिङ्ग् महोदय अर्जुनः पाण्डुराजः लक्ष्मीभगिनी कृष्णः वासुदेवः वसुदेवः अनन्तरं के के सन्ति अत्र रामः पद्मिनी भगिनी रामः कौसल्या वसुप्रदाभगिनी लक्ष्मणः सुमित्रा हु? समीर महोदय आञ्जनेयः अञ्जना अत्र रामदशरथयोः मध्ये सम्बन्धः अस्ति रामः पुत्रः दशरथः पिता सम्बन्धः अस्ति अधुना वयं कानिचन वाक्यानि रचयामः कः वदति श्रीरम्या भगिनी भवती कर्तुं शक्नोति वा आं भगिनि करोतु सः कः एतस्य नाम गणेशः गणेशः कः गणेशः शिवस्य पुत्रः उत्तमं शिव शिवः कः भवता अवगच्छति वा आं भगिनि अवगच्छिविभक्तेः उपयोगं कुर्मः अनन्तरं कः वक्तुमिच्छति कः सिद्धः अहं वदामि भगिनि वदतु एषः लक्ष्मणः एतस् एतस्य लक्ष्मणः एतस्य माता का एतस्य माता सुमित्रा माता सुमित्रा उत्तमम् पुनः करोतु एतस्य नाम लक्ष्मणः एतस्य नाम लक्ष्मणः एतस्य माता सुमित्रा। सुमित्रा का एतस्य माता सुमित्रायाः पुत्रः लक्ष्मणः सुमित्रा सुमित्रा कस्य माता सुमित्रा लक्ष्मणस्य माता उत्तमं कस्य माता सुमित्रा लक्ष्मणस्य माता सुमित्रा उत्तमं तथा एव वक्तव्यम् उत्तमं भगिनी अनन्तरं कः कर्तुमिच्छति वसुप्रदा भगिनी भवती करोति वा अहमेव क्षम्यतां भगिनि अनन्तरं समीर् महोदय आञ्जनेयकः आञ्जनेय आञ्जनीपुत्रः आम् तथा न वक्तव्यम् अत्र पश्यतु महोदय एतस्य नाम अत्र पश्यतु तस्य एतस्य अत्र षष्टिविभक्तेः उपयोगं कृत्वा वयम् अत्र वाक्यानि चर्चयामः एतस्य नाम आञ्जनेयः आञ्जनेयः आञ्जनेय कः यत् आञ्जनेयः कः वदतु भवान् एव वदतु आञ्जनेयः uh, हा अत्र पश्यतु अञ्जनीपुत्रः इति न वदामः किमर्थं चेत् अञ्जनीपुत्रः इति वदामश्चेत् तत्र समासः अस्ति तत् वयं न जानीमः वि डोण्ट् नो हौ दट् समासं विल् वर्क् दीजन् यु आर् सफोस् टु से अञ्जनी ईकारान्तपदम् अत्र अञ्जना दीर्घ आकारान्त पदमेव कस्याः पुत्रः आञ्जनेयः याः पुत्रः आञ्जनेयः माता काजना आञ्जनेय माता माता आञ्जनेयस्य माता कस्य माताञ्जना आञ्जनेय मात्र अञ्जनापुत्र आञ्जनेयः उत्तमम् अञ्जनायाः पुत्रः आञ्जनेयः अत्र पश्यतु केवलम् अहं किं वदामि चेत् कस्य कस्याः कस्य कस्याः इति पदद्वयं प्रश्नवाचकपदद्वयं कस्य पुत्रः कस्याः पुत्रः कस्य माता कस्याः माता हूस् मदर् हूस् सन् फर् द ीलिङ्गे वदामश्चेत् कस्याः माता कस्याः पुत्रः इति वदामः पुंलिङ्गे वदामश्चेत् कस्य माता कस्य पुत्रः तथा वदामः अन्ये के के वक्तुमिच्छन्ति राजीव्सिङ्ग् महोदय कर्णः कर्णः सूर्यस्य पुत्रः कर्णः सूर्यस्य पुत्रः सूर्यस्य पुत्रः कः सूर्यस्य पुत्रः कर्णः तथा एव स्पीकर् मास्तु महोदय कस्य क्रमः स्पीकर् मास्तु स्पीकर् मास्तु कृपया यदि ध्वनिः अस्ति चेत् म्यूट कुर्वन्तु बहु ध्वनिः अस्ति कः करोति अधुना का करो अहम् अहं वदामि भगिनी पद्मिनी वदतु वद, वद, वद भगिनि एतस्य नाम रामः रामः कः रामः कौसल्याः पुत्रः कौसल... भगिनी कौसल्यायाः okay. कौसल्यायाः पुत्रः कौसल्याकः कौसल्या पश्यतु कौसल्या स्त्रीलिङ्गपदं तदर्थं कौसल्या का कौसल्या का ओके कौसल्या का कौसल्या रामस्य माता उत्तमं कस्याः कस्य माता कौसल्या कौसल्या रामस्य माता रामस्य माता का रामस्य माता कौसल्या कौसल्यायाः कौसल कौसल्यायाः पुत्रः रामः कौसल्यायाः पुत्रः रामः कौसल्या रामस्य माता कौसल्या उत्तमं तावदेव उत्तमं अथ अनन्तरं हुडिन् राजीव्सिङ्ग् करोतु महोदय सः कः एतस्य नाम अर्जुनः अर्जुन अर्जुनः कः पाण्डुस्य पुत्रः पाण्डोः अथवा पा, पाण्डुराजः इति वदामश्चेत् पाण्डुराजस्य पुत्रः पाण्डुराजस्य पुत्रः यदि वयं केवलम् अत्र पश्यतु केवलं वयं पाण्डुः इति वदामश्चेत् पाण्डुः इति पदम् उकारान्तपदम् अतः उकारान्तपदानां कृते षष्टिविभक्तेः रूपं पाण्डोः इति भवति अर्जुनः पाण्डोः पुत्रः इति वदामः नास्ति चेत् नो चेत् अर्जुनः पाण्डुराजस्य पुत्रः पाण्डोः पुत्रः पुत्रः गुँ। पुत्रः करोतु भवानेव करोतु अन्यानि वाक्यानि अपि रचयतु कः वदति का वदति भगिनि महोदय भवान् करोतु राजीव् महोदय करोतु पाण्डुराजः पांडु राजा, राजा अर्जुन अर्जुनस्य पितः पश्यतु पिता।, पिता तत्र आ, तत्र विसर्गः नास्ति पाण्डुराजः अर्जुना पिता पाण्डुराजः कस्य पिता पाण्डुराजः अर्जुनस्य पिता उत्तमम् अर्जुनस्य पिता का कः पाण्डु अर्जुनस्य अर्जुनस्य पिता पाण्डुराजः पाण्डुराजः कस्य पुत्रः अर्जुनः पाण्डुराजुराजुन तत्र पश्यतु पाण्डुराजः पुत्रः इति न वदामः तत्र पाण्डुराजस्य पुत्रः अर्जुनः अर्जुन पाण्डुराजस्य पाण्डुराजस्य किमर्थं तथा पाण्डुराजः प्रथमाविभक्तिरूपं तस्य पुत्रः तदर्थमेव अतः पाण्डुराजस्य पुत्रः अर्जुनः कस्य कस्य पिता पाण्डुराजः अर, अर्जुनस्य पिता पाण्डुराजः उत्तमं तदेव अनन्तरं किञ्चित् कालम् अन्यत् अभ्यासमपि कुर्मः अहं वदामि महाभारतं व्यासः काव्यं महाभारतं लेखकः व्यासः महाभारतस्य लेखकः व्यासः इति वदामः अत्र स्थिरम्या भगिनी भवत्याः कृते शाकुन्तलं कालिदासः अनन्तरं सुबार महोदय कादम्बरी बाणभट्टः अनन्तरं लक्ष्मीभगिनी रामायणं वाल्मीकिः इति पदद्वयम् उपयुज्य अपि वयं वाक्यानि रचयितुं शक्नुमः यथा महाभारतस्य लेखकः व्यासः कस्य लेखकः व्यासः महाभारतस्य लेखकः व्यासः आम शाकुन्तलं किं शाकुन्तलम् एकं महाकाव्यं hmm. शाकुन्तलस्य लेखकः कः शाकुन्तलस्य hmm. लेखकः महाकविकालिदासः hmm. महाकविकालिदा hmm. कालिदासस्य um, hmm. महाकविकालिदासस्य काव्यं शाकुन्तलम् उत्तमम् उत्तमं कादम्बरी कादम्बरी अपि च बाणभट्टः कः करोति कः कर्तुमिच्छति कादम्बरी कादम्बरी इति काव्यस्य नाम बाणभट्टः तस्य लेखकः नामा लेख एकं काव्यं कादम्बरस्य कादम्बरीकाव्यस्य लेखकः कः कादम्बरीकाव्यस्य लेखकः बाणभट्टः अत्र पश्यतु भगिनी अत्र पश्यतु कादम्बरी काव्यस्य लेखकः बाणभट्टः तत्तु समीचीनं तद्वाक्यं समीचीनं वाक्यम् एव परन्तु कादम्बर्याः लेखकः कादम्बर्याः लेखकः बाणभट्टः तद्वाक्यमपि समीचीनं भवती यद् उक्तवती तत् समीचीनमेव परन्तु केवलम् अहम् अन्यत्रूपेणापि वयं वक्तुं शक्नुमः इति अहं वक्तुमिच्छामि कादम्बरी कादम्बरीकाव्यस्य लेखकः बाणभट्टः तत्तु समीचीनं तथा एव कादम्बर्याः लेखकः बाणभट्टः बाणभट्टः बाणभट्टस्य काव्यं किम् स्य काव्यं कादम्बरी उत्तमं कादम्बर्याः लेखकः बाणभट्टः बाणभट्टतः रामायणं वाल्मीकिः कः करोति कस्य क्रमः ah. लक्ष्मी रामायण रामायणस्य लेखकः वाल्मीकिः कस्य लेखकः वाल्मीकिः रामायणस्य लेखकः वाल्मीकिः वाल्मीकेः काव्यं किम् का... रामायना। रामायना। okay. काव्यं रामायण रामायणम् mm अत्र -hmm. पश्यतु भगिनी वाल्मीकिः इति पदम् इकारान्त पुंलिङ्गपदं ह्रस्व इकारान्तपुम्लिङ्गपदम् अतः वाल्मीकिः इति पदस्य षष्टिविभक्तेः रूपं वाल्मीकेः वाल्मीकेः काव्यं रामायणं रामायणस्य लेखकः कः रामायणस्य लेखकः वाल्मीकिः कस्य लेखकः वाल्मीकिः रामायणस्य लेखकः वाल्मीकिः उत्तमं तावदेव अनन्तरं वाल्मीकिमहोदयस्य काव्यं रामायणम् इति वदामः तथा एव इत्युक्ते अत्र वयं सम्बन्धं सम्बन्धाः mm -hmm. पदयोः मध्ये सम्बन्धः कः इति वयम् अत्र षष्ठी विभक्ति विभक्तेः उपयोगं कृत्वा वयम् अत्र वाक्यानि रचयामः द पर्पस् आफ़् षष्टिविभक्ति इस् टु हेल्प् यु अण्डर्स्टाण्ड् द रिलेशन्शिप् बिट्वीन् टु थिङ्ग्स् आर् टु पीपल् आर् टु टु पीपल् आर् टु तिङ्ग्स् ट्रै टु टु एस्टाब्लिश् ए कनेक्षन् बिट्वीन् रामायणम् अण्ड् वाल्मीकिः सम्बन्धः कः रामायणं काव्यं वाल्मीकिः लेखकः तयोर्मध्ये सम्बन्धः अस्ति सम्बन्धः सम्बन्धं किम् सम्बन्धः कः इति वदामश्चेत् षष्टिविभक्तेः उपयोगं कृत्वा एव वयं वक्तुं शक्नुमः तथा एव अत्र पुत्रः जननी यदि रामः कौसल्यायाः पुत्रः कौसल्यायाः पुत्रः रामः तथा एव सुमित्रायाः पुत्रः लक्ष्मणः लक्ष्मणस्य माता सुमित्रा तथा एव गणेशः पार्वती भवती करोतु गणेशः पार्वती गणेशः पार्वती पार्वत्यस्य पुत्रः पुनः चिन्तयतु पार्वती ईकारान्तपदं पार्वत्याः किञ्चित् स्थैर्यं वा भगिनी लक्ष्मी भगिनी भवती करोतु पार्वती पार्वतीकारान्तपदम् गणेशः पार्वत्याः पुत्रः उत्तमं पार्वत्याः पुत्रः कः पार्वत्याः पुत्रः गणेशः कस्याः पुत्रः गणेशः पार्वत्याः पुत्र कस्य माता पार्वती गणेशस्य माता पार्वती उत्तमं तथा एव अर्जुनः कुन्ती करोति वा अर्जुनस्य माता कुन्ती um. hmm. कुन्त्याः पुत्रः कुन्त्याः okay. किमर्थं कुन्त्याः इति वदामः कुन्ती इति पदं नदी गौरी इति शब्दवत् ईकारान्तदीर्घ ईकारान्तस्त्रीलिङ्गपदम् अतः तस्य पदस्य षष्टिविभक्तेः रूपं नद्याः कुन्त्याः पार्वत्याः कैकेय्याः तथा भवति कुन्त्याः पुत्र अर, अर्जुनः अर्जुनः उत्तमम् वसुप्रदा भगिनी भवती करोति वा कृष्णः कृष्णः सा गतवती वा भगिनी नो चेत् भवती करोतु कृष्णः देवकी कस्य पुत्रः कृष्णः देव देवकी देवकी देवकी याः देवक्याः उत्तमं देवक्याः पुत्रः कृष्णः प्रश्नः प्रश्नः कः तस्य कृते पश्यतु यदि वयं कस्य पुत्रः इति वदामश्चेत् तत्र भवति वसुदेवः इति वक्तुम् इच्छति चेत् वसुदेवस्य पिता ना, ना, ना. कृष्णस्य पिता वसुदेवः इति वक्तुमिच्छति चेत् कस्य पुत्रः कृष्णः इति वदामि चेत् पुंलिङ्गं कस्य पुत्रः वसुदेवस्य पुत्रः अत्र देवकी इति पदमस्ति अतः कस्याः पुत्रः कृष्णः वदति कस्याः पुत्रः कृष्णः देवक्याः पुत्रः कृष्णः कृष्णस्य माता सा कृष्णस्य माता कृष्णस्य माता का कृष्णस्य देवकी उत्तमं तथा एव भरतः भा कैकेयी इत्यपि करोतु भरतः कैकेयीकार कस्याः पुत्रः भरतः कैकेय्याः पुत्रः भरतः कैकेयी कस्याः पुत्रः भरतः कैकेय्याः पुत्रः भरतः तत्र पश्यन्तु कैकेय्याः तत्र यकारम् अप अपि च पुनः द्विवारं यकारम् आगच्छति यु विल् गेट् यकारं टु टैम्स् कैकेय्याः ओके तत्र यकारं द्विवारम् आगच्छति सम्यक् इदानीं पर्यन्तं वयं षष्ठिविभक्तेः उपयोगं कृत्वा वाक्यानि कथं रचनीयानि इति वयं जानीमः अधुना अग्रिमे सप्ताहे भवन्तः सर्वे अत्र एकादशे पुटे अभ्यासद्वयमस्ति अभ्यासद्वयं गृहपाठरूपेण कुर्वन्तु अजना कालातीतः अभवत् समापयामः सर्वेषां धन्यवादः शुभरात्रिः शुभरात्रिः लक्ष्मी भगिनी धन्यवादः धन्यवादः रात्रि धन्यवादः धन्यवादः धन्यवादः